नारदपुराणम् उत्तरार्थम् अध्यायम् सेवन्टि टु अथ गौतमाश्रममाहात्म्यम् मोकिन्युवाच श्रुतम् पुष्करमाहात्म्यम् वसो पापप्रणाशनम् गौतमाश्रममाहात्म्यमधुना कीर्तय प्रभो वसुरुवाच शृणु देवि प्रवह्यामि गौतमाश्रममुत्तमम् यत्र त्वा नरो भक्त्या न भूयोर्षदियादनाः गौतमस्याश्रमम् पुण्यम् देवर्षिगणसेविधम् सर्वपापप्रशमनम् सर्वोपद्रवशान्दिदम् सेवते द्वादशाब्दम् यो भक्तिभावसमन्वितः स शैवम् लभते धाम यत्र गत्वा न शोचति यत्र तपस्य समास्थितः तत्र गोदावरी गङ्गा सर्वपादकनाशिनी तपस्य दोमुनेस्तस्य द्वादशाब्दमवर्ष्णम् वर्षणम् बभूवखोरम् विधिजे सर्वसत्त्वक्षयङ्करम् तस्मिन्नुग्रे दु दुर्भिक्षे क्षुक्षामामुनयोखिलः नानादेशेभ्य आयाद गौतमस्याश्रमम् शुभे चक्रोर्विज्ञापनं तस्य गौतमस्य तपस्यतः देघिनो भोजनं येन प्राणास्तिष्ठन्ति वर्मसु यमं एवं विज्ञापितस्तैस्तु मुनिभिर्गौतमो मुनिः जादानुकम्पस्तानह विश्वस्तांस्तपसो बलात् गौतम उवाच तिष्ठध्वमुनय सर्वे ममाश्रमसमीपदः भोजनं वप्रदास्यामि यावद्दुर्भिक्षमादृदः विश्वास्यैव मृषीन् सर्वान् गौतमस्तपसो बलाद दध्यौ प्रसन्नमनसा गङ्गां सर्वार्थ साधिनीं स्मृतमात्रा तु सा देवी तत्रोद्भूता धरातलाद तां दो दृष्ट्वा मुनिर्गङ्गां सम्प्राविदधरातलाम् प्रादरु प्रादरुत्वाक्षितौ शालीन् पक्वान् मध्याह्नके लुनात् शाल्यन्येन ततस्तेन ता नृषीन् समभोजयत ततस्ते मुनयप्रीदा भुक्त्वान्नम् तृप्तिमागताः निवासं चकृरे तत्र गौतमाश्रमके मुदा एवम् प्रतिदिनम् भद्रे शालिभिः पक्वताम् गतैः आदिथ्यम् विददे तेषाम् भक्तिभावसमन्वितः ततस्तस्य मुनीन्द्रस्य द्विजान्धो जयदोन्वकम् व्यदीयाय च दुर्भिक्षम् द्वादशाब्दान्तकालतः तदस्ते मुनय सर्वे सुभिक्षे काल आगते विज्ञाप्यत मुनिश्रेष्ठम् जग्मुदेशान् स्वकान् पुनः एवं प्रभावः स मुनिर्गौतमस्तत्र मोहिनि तपस्तेभे बहुतीर्थम् कालं नियमिदेन्द्रियः ततस्तत्तपसतुष्टो भगवानम् पिकापतिः सगणो दर्शनं यादो वरं ब्रूहीत्युवाचः ततो मुनिवरो दृष्ट्वा देवदेवमुमापतिं त्र्यम्पकं स नमश्चक्रे भुवि तत्पुरः तद उद्धाय सखसा कृदाञ्जलिरुपस्थितः प्रो वाज देहि मे भक्तिं पादयोस्तव नित्यथा ममाश्रमसमीप्यत्र पर्वतो परिशङ्कर त्वामेवं संस्कृतं पश्याम्येष एव वरो मम इत्युक्तपर्वदिनाथो भक्तानां वाञ्छितः प्रदः तत्र दत्त्वा स्वसान्निध्यं सद्यप्रीतं चकारदं तेन रूपेण तत्रैव न्यवस त्र्यम्बकः स गिरीरत्र्यम्बकाख्यस्तु तदप्रभृति कीर्त्यते ये तु गोदावरीं गङ्गां प्राप्य भक्तियुधा नराः स्नानं कुर्वन्ति सुभगे ते स्युर्मुक्ता भवार्णवाद स्नात्वा गोदावरीतो ये त्र्यम्बकं ये गिरिस्थितम् उपचारै पूजयन्ति ते स्युः साक्षान् महेश्वराः हात्म्येपाद्वक्तुं तव तादः क्षमो नहि ततो गोदावरी यावत् साक्षाद् दर्शनदाङ्गतात् तावदप्याश्रमा पुण्यास्तत्र सन्दिह्यनेकशः ते शुष्णत्वाभिधानेन सन्तर्प्य पितृदेवताः नरोभिलक्षितान् कामान् प्राप्नो यान्नात्र संशयः प्रकाशाद् क्वचित् भद्रे क्वचिद्गुप्ता ततः परं प्लावयामा सदरणीं पुण्या गोदावरी नदी यत्र प्रकटतां यादा नृणां भक्त्या महेश्वरी तत्र तीर्थं महत् पुण्यं स्नानमात्रा दखापहम् तद पञ्चवटीं प्राप्य सा देवी नियदव्रत सुप्रकाशमनुप्राप्ता लोकानां गतिदायिनी गोदावर्यं पजवट्यां यस्नायानि यदव्रतः स नरप्राप्नुयात् कामानभीष्टान्विधिनन्दिनि यदा प्रदा युगे रामपञ्चवट्यामुपागतः सभाष्य सानुजस्तत्र वसन् इत्येत्सर्वमाख्यातं गौतमाश्रमजंशुभे शृण्वं पठदं पुण्यं पापत्नं वाञ्छिदप्रदम् इति श्रीबृहन्नरदीयपुराणोत्तरभागे बृहदुपाख्याने वसुमोहिनीसंवादे गौतमाश्रममाहात्म्ये गौतमतपश्चर्याप्रभाववर्णनं नाम द्वासप्तधि समोऽध्यायः इति गौतमाश्रममाहात्म्यम् ओम्